श्री श्रीगुरुभ्यो नमः हरिः ओमहागणातिपतये नमः सदाशिवसमारम्भाम् व्यासशङ्करमध्यमाम् अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् नारायणम् नमस्कृत्या नरम् चैव नरोत्तमम् देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् नमामि भगवत्पादशङ्करम् लोकशङ्करम् शङ्करम् शङ्कराचार्यम् केशवम् बादरायणम् सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः यहानुभा वारिलो श्रीमदज्जाड आदिपट्ल नारायणदासुगार वनेकेक्ति मिन्न अयनवदिरे वार। प्राक्तनजन्मविद्याः जन्मान्तरमुनन्दलि सकलविद्य अप्रयत्नङ्गाय वार सङ्गीतसाहित्य कला सुधासागरु शास्त्रसार पारावापारीणु सरस्वती देवि साक्षात्करि सकल कलाप्रपूर्ण बिरुदा श्रीदासुगारि समर्पनि वर्णितम् समुचितं इञ्चुमहित्यप्रक्रिय संस्कृतकौले श्रीकारान् चुट् शतकप्रक्रिय उपज्ञष्ट विषयान् बहुभङ्गुतो चित्रि सहृदय सम्मोहपरचकल्यं श्रीनरायणदा संस्कृतम् तेलु आङ्ग्लं पारसीकं माषासाहित्य मुद्रोषणप्यु पन्दि पद्वत्सरगार सकुटुम्ब काशीक्षेत्राणि सन्दर्श आशुग अवतरिचीवर्णनमेतकं काशीनगरम् अकज जल आचार व्यवहारनदी तदीयघट्ट अन्निवेशू विश्वेश्वरादि देवीन्दर्य मंशा इर्णिबि मथुर सुन्दर शब्दर्थालङ्कार प्रसन्न गुणा माव्यसंपद लघुकाव्यकडलाडाय श्रीमदज्जा आदिपट्ल नारायणदा काशीशतकानि संस्कृत श्रद्धाभक्तु श्रवणं चे आ विश्वनाथु अन्नपूर्ण अनुग्रहा पात्रुमौदाम् श्रीदासुगार काशीशतकानि विनिपि तनालि वास्तव्युरु ब्रह्मश्री गोलि सुब्बावधानिगारिमरु प्रोफेसर् गो आञ्जनेयु अहम्भो अभिवादयेत् संश्रिताभीष्टदम् देवम् सच्चिदानन्दविग्रहम् समस्तभुवनाधारम् काशी विश्वेश्वरम् भजे भून् कैलासम् नयन्ती व याति जाह्नव्युदम् मुखम् सौथश्रेण्यर्थचन्द्रवत् गभीरम् निर्मलम् स्निग्धमापूर्णम् भाति जाह्नवी असी वरुणयोर्मध्ये शिशिरे योगिदृष्टिवत् पुनरावृत्तिरहितमार्गम् स्वस्मिन् ददन्निव उदेति सूर्योऽभिमुखम् गङ्गास्नानम् प्रकुर्वताम् प्रसन्नमुखपङ्केजो बद्धपिङ्गशिरोरुहः महादेवो यथा तीरे भातिकोऽपि दिगम्बरः भागीरथ्याम् कृतस्नानस्तीरमञ्जे जपञ्जनः तृणायमन्यते मृत्युम् पुण्यम् मूर्तीकृतम् यथा नानाभाषा भाषमाना नाना, नाना वेषविराजिता स्नात्येकभक्त्या गङ्गायाम् नानादेशागतप्रजा गङ्गायाम् प्लवमानो नृपुणपो भीषयन् जनान् संस्मारयति जन्तूनाम् मुहुरः स्थिरजीवितम् भागीरथी स्नानतोऽहम् जातो जगत किल्बिषः इति सन्तुष्टमनसा कोऽपि तीरे प्रगल्भते श्रोणीभरालस घट्टसोपानान्यवरोहति गङ्गामपि पुनातीव स्नातिकापि पतिवरता स दण्डकाषाय वस्त्रा बालशिष्योपसेविता गङ्गातीरे परिव्राजश्चक्तुकामाः यातायातजनास्तीरे श्रेणीभूतपिपीलिकाः असि वरुणयोर्मध्ये जाह्नवी मणिकर्णिका मद्रूपेणैव गङ्गायाम् त्वत्कृतम् स्वस्नानमुद्भवेत् तारये त्वाम्भवाब्धेर्नौर्वदन्तीवेति राजते नापिता याचकाः पुष्पलाविका अनुलेपकाः तीर्थध्वाङ्सा आगतानाम् गंगातीरे समाश्रिताः अर्बुदाम् शुल्कप्रायापि स्नापयति मानवान् सुगन्धिसलिलै स्वीयैः प्रत्यहम् मणिकर्णिका मङ्क्ष्वा मणिकर्णिकायाम् कर्म दत्त्वाधिकारिणे क्षौरकर्मपुमानाप्त्वा गङ्गायाम् स्नातिभार्यया श्यामलत्वम् शीतलत्वम् साधुत्वम् नाम विन्दतिः चंद्रधराजख्नो क्रद्दंग भगीर था पंचक्रोशं वाराणसी पतनम विनश्यति प्रलि यतस्त महात्म्यं कमूहते काशी मुक्तिस्थानी चातुर्वर्ण्यम् प्रसेवते तद्वर्णनेनैव कविः कृती भवति नान्यथा आस्तिक्यम् विस्तारयितुम् तेन पालयितुम् जनान् धर्मार्थमीशमहिमा तीर्थेष्विद्धम् प्रदृश्यते सर्वक्षेत्रोत्तमाकाशी सर्वसम्पत्समन्विता प्रत्यक्षकैलासपुरी मुमुक्षूणाम् निकेतनम् काचिच्छिला देवतेति कश्चिद्राजेति मानवः ज्ञातुम् विनाप्तोपदेशं स्वयम् शक्तः कथम् भवेत् दिष्ट्या श्रद्धा मानुषेषु केश्वेव परिदृश्यते तस्या नवविधा भक्तिमार्गा अवयवीकृताः काश्याम् समस्तदेवेषु विश्वनाथो विशिष्यते त्रैलोक्यपूजितम् तस्य मन्दिरम् स्वर्णगोपुरम् प्रत्यक्षनन्दीव तत्र राजते कोऽपि गोपतिः बिल्वपत्राशनः सन्ति तेजस्का देवपूजिताः उपर्युष्टमधः शीतम् दददेव दिवानिशम् सान्द्रत्वादुन्नतत्वाच्च सौधानाम् वातिमारुतः विराजन्ते, वाराणसीघट्टा प्रत्येकना शिलाम्हैंते मध्यस्थसौधराजि पद्मूह परभ्रम अतिता स्वस्थ नूतनो जन काशी देशीय भाषा नजो याधर्यत अभीष्टवस्तून्य धनोपि दरिद्रवत् कभाषाया भोज्यवस्व संगीते मधुरो रस जलयन्त्रप्रभावेण काशीपुर्युपयोजितम् नयन्ति गङ्गामुदकमन्तर्लीनप्रणालिकाः प्रतिगेहं विश्वनाथस्थापितो लिङ्गरूपतः देवताभक्तिसर्वस्वम् सञ्चितम् काशिका पुरी नारी वकुण्ठसवती पुमानुष्णीषभूषितः काशीनागरकत्वस्य जन्मभूमिर्धरातले महाश्मशानमानन्दकानम् काशिकापुरम् सत्यम् श्रीरामनामेति शर्वाण्यत्र प्रघोषती घट्टापथाः पाठशाला विशालारामदीद्धिकाः वाराणाश्याम् विराजन्ते नानाशिल्पकरागृहाः शिवरात्रिदिने प्रातः गंगाजले गङ्गाजले वयम् अतिकष्टेन विश्वेषमभिषिच्यागताः पुनः अन्नपूर्णालये बालवटवो बहवस्तदा सङ्घीभूत्वा स्त्वन् गौरीम् प्रेक्षकाश्चर्यकारिणः जाश्चोरा अपि भ्रंशः अपिभृशम् दिव्यभक्तिवशीकृताः शिवरात्रौ विश्वनाथमहिमा सन् वाराणसीति वा रात्रम् शिवनाम्ना निनादित शिवरात्रौ किम् ब्रवीमि दुर्जनः सज्जनायते शिवालयेऽभिषेकम्बुजानुदग्नम् समन्ततः विसृष्टवृषभैर्बिल्वपत्रराशिरपक्ष्यत वानरै वानरैरुपरिस्थले कोलाहलेन मूलानि सङ्गृह्यन्ते फलानि च तौर्यत्रिकप्रयोगेन पुराणश्रवणेन च जितेन्द्रियः पञ्चजनैः शिवरात्रः वजागरी सेव्यते विश्वेश्वरादि देता दशक जनयात्रा पद्याभिस्नान पित सौध्रेंधतीव मध्ये सौदा मनी यद अधस्तांचालिक काश्यां भाति कुललांगना नानानरेश स्थापितान्यन्नसत्राण्यनेकश अकुनोद्यदन्ति मृष्टान्नम् सर्वदाविडभूसुरैः अमूल्यम् कौशेयवस्त्रम् अमूल्यं कौशेयवस्त्रं अमितम् मस्करिकुलम् अमितं वन्न कुत्रचित् स्थापितम् दैवतम् किञ्चिदाश्रित्य धनमार्जयन् स्वयम् तीर्णस्तारयति सपरः देवपूजकः जङ्गमस्थावराकारा सम्यग्राजितदेवताः धनम् ददति नित्यम् संश्रितानाम् तिथवासिनाम् सहमानो मार्गकष्टम् त्यजन्प्राणसमम् धनम् भक्तोऽटिति विदेशेश्य सुखं। न ह्यैहलौकिकम् स्वागीरथ्या अवाक्तीरे व्यासकासी विराजते वाराणास्या सुते वास्याह। प्रभुर्देवेन्द्रवै भवः भयसम्भ्रमसन्तोहैः स्थित्वा गङ्गाम् नवा जनाः काशी यात्राम् व्यासमीक्ष्य सफलीकृत्य गताः पुनः नित्यविश्वेश्वरोपेता नित्यगङ्गा समन्विता नित्यानन्दप्रदायिनी शुक्लपक्षे फाल्गुने ओले होलेत्युत्सव एधते उत्कण्ठितैः सानुरागैः श्रीकृष्णो जनैहि जनैः नौकास्तितजनोत्सृष्टा दीपिकालिर्विराजते गंगायाम् तारका असन्ती वाम्बराश्रिताम् सञ्चित्या ज्वलयन् पक्षितेऽन्धनम् पौर्णमास्याम् जनः कामदहनोत्सवमातनोत् गायन् हसन्मिथो निन्दन् पुङ्कुमम् सङ्किरजनः काश्याम् चरतिराकायामानन्दयुवमूर्तिमान् अतापि म्लेक्षकैरेषाङ्ग्लेयप्रभुः कृपामृतात् वाराणसी पुनर्लब्धचेतनाद्य प्रसुख्यति बहुवेषैर्बहुमतैर्बहुभाषाभिरन्विता वाराणसी कीर्तयति विश्वेशम् विश्वरूपिणम् भाषते हृदयोन्नत्यम् वाराणासीनिवासिन बिन्दुमाथवदेवस्य स्तम्भावम्बरचुम्बिनौ षट्शास्त्रपारगाः काशीपण्डिताः सार्वलौकिकाः देंभाषा जन्म भूमि वाराणसी संशय शिष्टाचार मर्यादा प्रवर्त कोपि न दृश्य से भारते वर्षे प्राचीनेयु धनिनामपि रिक्तानाम् काश्येव सुखकारिणी सान्दीपेनात्राध्यगीष्ट कृष्णोऽपि भगवान् स्वयम् काशिका विद्वन्महत्त्वम् किम् वक्तव्यमितः परम् सायम् वारयोषितः आकर्षन्ति विटान्वीक्षाजालैः काश्याम् जुषानिव ददतोऽन्नम् पाठयन्ति विद्याम् विद्यार्थिनः सदा परोपकारपारिणः केऽपि काशीनिवासिनः व्यासकाशी महाराजसभायां वरसुन्दरी गायति मधुरं नृत्ये नाहर्षी जनमानसं। कर्पूरनीराजनेन सेवमानः महेश्वरम् घुण् घुण्मानो नदन् केऽपि सा याक्नि भृगुवासरे सद्य एव यदि वाञ्छेत्समस्तवस्तूनि वारणास्याम् समाप्नुयात् कालसूत्रम् करे बद्ध्वा केके पिञ्चेन ताडयन् स्वस्तिब्रूते यात्रिकाय कोऽपि भैरवमन्दिरे लंबोदरो गजमुखो द्वार्धो डुण्डिस्त्रियम्बकः पितरो आत्मयप द्रष्ट आज्ञापयिका विराजते सौध मध्य सूर्य पश्यो महाजनह महाजन वलकार्तिव पांडुराज यत्र यत्र यदा तत्र तत्र तादाया सदा कल्पलतायन्ते काश्यामखिलवीधयः देहिमेकमपि द्रव्यम् नादत्तमुपतिष्ठति इति ब्रुवन्तीव काचाम् शिनुते कापि देवता दण्डपाणिभयम् नास्ति मदन्तिकनिवासिना इति ब्रुवन्निवात्रास्ते दण्डपाणिः सदाशिवः विलोकते यो माम् भक्त्या सोऽज्ञानतिमिरम् तरेत् इतिव तन्महादेवी भाषते विवृतानन दधाम्यहम् वाराणासी मनस्तव मेदिनी इति ब्रुवन्तीव काशी नामनास्ते कापि देवता सर्वतीर्थमयी गङ्गा सर्वभूतमयः शिवः सर्वदेवमयी काशी लेशोऽप्यत्र न संशयः बौद्धादहिंसाम् यवनादनकुण्डनमग्रही आंगलेया आंग्लेोक श्रद्धा काशी स्वतः प्रत्यादीशोस्वीधत आयता काश्या सौध शोक का। उव्यापु दिवृश्य तंत्रि वृक्षसंकीर्ना कीचकप्रान्तसंवृता का मृदुश्वेतमृदोपेता काशी निर्नगकानन गोधूमफलका काशी समभूमिविराजिता वार्धेऽर्दविष्टाहिमवद्विन्धयोर्मध्यसंस्थिता द्राविडाश्चेद्भूमिदेव दीयन्तेऽन्नम् सदक्षिणम् सर्वसत्रेषु मध्याह्ने वारणस्याम् यथा सुखम् त्रिगुणैरेव संसारचक्रम् भ्रमति तत्त्वतः ब्रुवन्नति वानुद्भिः गच्छति त्रिभिः विश्वेश्वराभिषेकाय सति भागीरथीजले काश्याम् कोमाम् वाञ्छतीति नारिकेलो न जायते भुङ्क्ते यथेष्टम् बलवान् भोगान् रुदति दुर्बले शत्रूञ्जित्वा वशामेत्य बलीवर्दः प्रगल्भते येन केना व्युपायेन बहुवन्नम् प्राप्नुयादिति पुनः वस्त्रं वस्त्रम् ददात्यनायवानरः खेलन्तमन्यगेहीषु वयते डिम्भकम् यथा कोऽपि स्वियमायाहेति स्वीयमायाहेति बहिर्गतम् कण्ठालम्बितमालका श्रोतृभिः परिवेष्टिताः सायम् पौराणिकाः काश्याम् दृश्यन्ते प्रोन्नताननाः विधो विवादम् कुर्वन्ति नानामतवलम्बिनः सायम् प्रातर्वारणा स्याम् केऽपि पण्डितमानिनः सूत्रेणोत्क्षिप्तमाकाशे वीक्ष्यस्य नः पतङ्गकम् प्रहर्तुम् तम् प्रयतते सहते कः परोन्नतिम् प्रतिकूलापि काशी संसेव्यते सदा मुमुक्षुणातिदुष्टोऽपि भर्तेवोत्तमभार्यया यमुना प्रमुखा नद्यो गङ्गायाम् तस्य नामवाप्नुवन्ति पत्युर्गोत्रम् यथा स्त्रियः विनीलकाचवलयराशीवाभातिजाह्नवी शिशोः कनीनिकेवापि शिशिरर्तौ विनिर्मला महो बुढा मङ्गल्याख्यम् महाद्भुतमुपागमत् समया कुर्वन्ति पौरा मध्ये गङ्गमहर्निशम् स्थलीकृतायाम् गङ्गायाम् प्लवैर्वाराणसी जनः तौर्यत्रिकम् दिवारात्रमनुभूय प्रणन्दति जगने विन्यस्तहस्ता मोहयस्तिखिलाञ्जनान् वारस्त्री पुराृच्यारी राजंसी व संसदी गायरवींप्रातर्मूर्यती सभासद मोहनास्त्रयते वारसुंदरी। गंगा गिशस्त न पिनशक्नुयात। ूयेते तौ मयैवार्कश्चाद्यते किम् न पाणिन मादृशः पाचकस्त्वादृक्पावनीनैव विद्यते दिष्ट्या वयोः समावेशो गङ्गेद्यसमभूदो व्यरचीद्धम् मया काशीशतकम् नैजधीमत श्रीमदज्जेड आदिपट्ल नारायणदासुगार रचिन काशीशतकानि विनिपनालि वास्तव्युरु ब्रह्मश्री गोलि सुब्बावधानिगारिकुमारु गोलि आञ्जनेय मङ्गलम् कोसलेन्द्राय महनीय गुणात्मने चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ओम् शान्तिः शान्तिः शान्तिः